श्रीमद्भागवत्पुराणं चतुर्थी स्कन्ध अथ द्वितीयोऽध्यायः विदुर्वाच भवेसिलवतां श्रेष्ठे दक्षो दृतृवत्सलः विद्वेसमकरोत्कस्मान् अनादित्यात्मजां सतिम् कष्टं चराचरगुरुं निर्वैरं शान्तिविग्रहम् आत्मा रामं कथं द्वेष्टि जगतो दैवतं एतदाक्षाहि एतदाख्याहि मे ब्रह्मण् जामातु स्वशुरस्य च विद्वेषस्तूयत प्राणान्तत्यजेदुस्तजांसति मैत्रीवाच पुरा विश्वसिजां सत्रे समेता परमर्षयः तथा मर्गुणा सर्वे सानुगामनियोज्ञयः तत्र प्रविष्टमिषयो दृष्टवार्कमिवरोचिषा भ्राजमानं वितिमिरं कुर्वन्तं तन्महसदः उत्तिष्ठन् सदस्यास्ते स्वधिष्णयेभ्य सहाग्नयः ऋतेर्भिरिञ्चं सर्वं च तद्भासा क्षिब्दचेतस सत्सत्पतिर्भिदक्षो सा। भगवान् साधुसत्कृतः अजं लोकगुरुं नत्वा निसंसादन्तदाज्ञयां प्राङ्षण्णं बृढं दृष्ट्वा नामृश्यत्तद् नादृतः उवाच वामं चक्षुर्भ्याम् अभिवीक्ष्य तहन् दहन्निव श्रूयतां ब्रह्मर्षयो मे सह देवासहाग्नयः साधूनां अयं तु लोकपालानां यशोघ्नो निरपत्रपः सद्भिराचरितः पन्थायेन स्तब्धेन दूषितः एष मे शिष्यतां प्राप्तो यन्मे दुहितुरगृहीत पाणिं विप्राग्निमुखतः सा विद्यायु साधुवत् गृहीत्वा मृगषावाक्ष्याः कृतनोचितम् लुप्तक्रियाया शुचये मालिने भिन्नसेतवे अणिच्छन्नप्यतां बालां शुद्रा एवो सतिं गिरं प्रेतावासेषु घोरेषु प्रेतैर्भूतगणैर्वितः अटत्युन्मत्तवन्नग्नो विदकेशो हसन् रुदन् चिताभस्म कृतस्नानः प्रेतस्नाग्निश्रिभूषणः शिवापदे सौ शिवो मद्दो मद्दजनप्रियः ततिप्रमथभूतानां तमों त्वमात्रात्मकात्मनां तस्मा उन्मादनाथाय नष्टशौचाय दूषिते दत्ता बाध्वी चोदिते परमेष्ठिनां मैत्री उवाच विनिन्द्यैवं सगिरिशम् अप्रतीपमवस्थितम् दक्षो दक्षोत्थाप्यस्य क्रुद्धशप्तुं प्रचक्रमे अयं तु जेव यजनम् इन्द्रोपेन्द्रादिभिर्भवः सहभागं न लभतां देवै देवगणाधमः निषिध्यमानसन्सदस्य मुख्यै दक्षो गिरिद्रायुसृज्यशापं तस्माद्विनिष्क्रम्य विविद्धमन्युर्जगामकौरभ्य नितं निजं निकेतनम् यज्ञायशापं गिरिशानुग्राग्रणीर्नन्दीश्वरो रोषकषाय दूषितः दक्षाय शापं विससर्जदारुणं ये चान्मोद तं तद्वाच तां द्विजाः स एतमर्त्यन्मद्दित्यस्य भगवत्य प्रतिद्रुहे द्रुह्यत्यज्य पृथग्दृष्टि तत्त्वतो विमुखो भवेत् गृहेषु कूटधर्मेषु शक्तो ग्रामसुखैक्षयां कर्मतन्त्रं वितनुते वेदवादविपन्नधी बुद्ध्या पराभिध्यायिन्यां निमृतात्मगतिपशु श्रीकामसु स्वतिन्थनां दक्षो बस्तमुखोचिरान् विद्या बुद्धिरविद्यायां कर्म मय्यामसौ जरः चामू चामो मनुसर्वावमानिनम् गिरसुताया पुष्पिण्या मन्धुगन्धेन भूरिणा मथ्ना चोन्मथितात्मान सम्मुह्यन्तो हरद्विष तर्वभक्षा द्विजावृत्यै धृतिविद्या तपोव्रताः नित्यदेहेन्द्रिया रामा याचका विचरन्त्विह श्रुत्वा द्विजकुदाय ऋगुप्रत्ययसुज्शापम् ब्रह्मदण्डम् दुरत्ययम् भवव्रतधुराये च ये च येचत्वां समनुव्रताः पाखण्डिनस्ते भवन्तु सस्यासपरिपन्थिनः नष्टशौचामुधियो जटाभस्मासि धारिणः पिशन्तु शिवदीक्षायाम् यत्र देवम् सुराशवम् ब्रह्म च ब्राह्मणास्यैव यद्युतिम् सेतुम् विधारणं पुंसाम् अत पाखण्डमाश्रिता एष एव हि लोकानाम् शिव पन्था सनातनः जम्पर्वेचानुसन्तस्थुर्यप्रमाणम् जनार्जनः तद्ब्रह्मपरमम् शुद्धम् शताम् वर्त्मसनातनम् विगर्ह्यजात पाखण्डम् तस्यैवं वदत शापं झगोष भगवान् भव निश्चक्रां तत किञ्चिन् विमनायुषानुगः तेऽपि सहस्र सहस्रपरिवत्सरान् संविधाय महिश्वास यत्रेज्य ऋषभो हरिः आप्लुत्यावभृतं यत्र गङ्गा यमुनियान्विता विरजेनात्मनः सर्वे स्वं स्वधामाञ्जोस्ततः ते श्रीमद्भावते महापुराणे प्रहंसां चयितायां चतुर्स्कन्धे दक्षसापोनां द्वितीयोऽध्यायः